प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैस्तुतान् रूपम् कृत्वा महाभीमं जहाराशु समेदिनीम् सम्प्राप्य पादमाकाशम् आदित्य सदने स्थितः अत्यरोचत भूतात्मा भास्करं स्वेन तेजसा प्रकाशयन् दिशसर्वाह सर्वाः प्रदिशश्च महाबलः शुशुभे महा सर्वलोकान् प्रकाशयन् तस्य विक्रमतो भूमिम् चन्द्रादित्यौ स्तनान्तरे नभः प्रक्रममाणस्य नाभ्याम् किल तदास्थितौ परमाक्रममाणस्य जानुभ्याम् व्यवस्थितौ विष्णोरमितवीर्यस्य वदन्त्येवम् द्विजातयः अथासाद्यकपालम् स अण्डस्य तु युधिष्ठिर तच्छिद्रात् स्यन्दिनीतस्य पादाद्भ्रष्टा तु ससारसागरं साशु पावनी सागरङ्गमा जहारमेदिनीम् सर्वाम् हत्वा दानवपुङ्गवान् आसुरीम् श्रियमाहृत्य त्रील्लोकान् स जनार्दनः सपुत्रदारानसुरान् पाताले तानपातयत् नमुचि शम्बरश्चैव प्रह्लादश्च महामनाः पादपाताभिनिर्धूताः पाताले विनिपातिताः महाभूतानि भूतात्मा सविशेषेण वैहरिः कालम् च सकलम् राजन् गात्रभूतान्यदर्शयत् तस्य गात्रे जगत् सर्वमानीतमिव दृश्यते न किञ्चिदस्ति लोकेषु यदव्याप्तम् महात्मना